गरुडपुराणम् प्रेतकाण्डम् धर्मकाण्डम् अध्यायम् फैव् श्रीकृष्ण उवाच एवम् दग्ध्वा नरम् प्रेतम् स्नात्वा कृत्वा तिरोदकम् अग्रतस्त्रीजनो गच्छेद्व्रजेयुः पृष्ठतो नराः प्राशये निम्बपत्राणि रुदन्तो नामपूर्वकम् विधातव्यं चाचमनं पाषाणोपरि संस्थिते ते प्रविश्य गृहं सर्व सुदाद्याश्च स पिण्डकाः भवेयुर्दशरात्रं वै यत आशौचकं कग्रीतलब्धाशन सर्वे स्वपेयुस्ते पृथक् पृथक् अक्षारलवणान्नास्युर्निमज्जेयुश्च ते त्र्यहम् अमांस भोजनाश्चाद्ध शरीरन् ब्रह्मचारिणः परस्परम् न संस्पृष्टा दानाध्ययनवर्जिताः मलिनाश्चाद्धो मुखाश्च दीनाभोगविवर्जिताः अङ्गसंवाहनं केशमार्जनं वर्जयन्ति ते मृण्मये पत्रजेवाभिभुञ्जीरं स्तेजभाजने उवासन्तु ते कुर्युरेकाहमधवात्र्यहं गरुड उवाच अशौचिनयति प्रोक्तमाशौचस्य च वै लक्षणम् किं कालं भाव्यं वा तद्युतैर्नरैः श्रीकृष्ण उवाच अपनोद्यन्त्विदम् कालादिभिराशु निषेधकृद पिण्डाध्ययन दानादे पुङ्गदो दिशयोहिद दशाहं शावमा शौचम् स पिण्डेषु विधीयते जननेऽप्येव मे वस्यान्निपुणं शुद्धिमिच्छतां जन्मन्ये कोदका नान्दु त्रिरात्रा शुद्धिरिष्यदे शावस्य शेषा शुद्ध्यन्दित्र्याकादुतकदायिनः आदन्दजननत्सद्य आचौलान्नैशिगी स्मृदा त्रिरात्रमाव्रतादेशा दशरात्रमतः परम् आ शौचं ते समाख्यातं सङ्क्षेपात् प्रकृतं ब्रूवे जलं त्रिदिवमाकाश्ये स्थाप्यं क्षीरञ्जमृण्मये अत्रस्नाहिपि स्नाहि पिबात्रेदि मन्द्रेणान्नेन काश्यव काष्ठत्रये गुणैर्बध्ये प्रीत्यै रात्रौ चतुष्पथे प्रथमेतृतीये वा सप्तमे नवमे तथा अस्ति सञ्चयनं कार्यं दिने तद्गोत्र जैः सह तदूर्ध्वमङ्गसंस्पर्शस्सपिण्डानां विधीयते योग्या सर्वक्रियाणां च समानसलिलास्तथा प्रयतपिण्डं बहिर्दद्या दर्भमात्रविवर्जितं प्रागुदिष्ट्यां चरुं कृत्वा स्नात्वा प्रयतमानसः भूमा वः संस्कृतानां च संस्कृतानां कुशेषु च नवभिर्दिवसै पिण्डान्नवदद्यात् समाहितः दशमं पिण्डमुत्सृज्य रात्रिशेषे शुचिर्भवेद् असगोत्रसगोत्रो वा यदि स्त्री यदि वा पुमान् प्रथमे खनि यो दध्यास्स दशशाखं समापयेद् शालिनाशक्तुभिर्वापिशाखैर्वाप्यधनिर्वपेद प्रथमे खनि यद्द्रव्यं तदेव स्याद्दः शाखिकं मे कैकस्याञ्जलेर् दानमुच्यते यद्वा यस्मिन् दिने दानं तस्मिंस्तद्दिनसंख्यया दशाह्जलयः पक्षिन् पञ्चाशदन्तिमे दिवृद्ध्या वा भवेत् पक्षिन्नञ्जलीनां शतं पुनः यदा हि शौचम् तदा वाञ्जलयो दश त्रयोऽञ्जलय एवं तु प्रथमे हनि वै तदा चत्वारस्तु द्वितीयेऽस्नि तृतीये एवं जलस्याञ्जलयो विभाज्याः पक्षयोर्द्वयोः सर्वेषु पितृकार्येषु पुत्रो मुख्योऽधिकारवान् पिण्डप्रसेकस्तूष्णि पुष्पधूपादिकं तथा दशमेघनि सम्प्राप्ते स्नानं ग्रामात् बहिश्चरेद तत्रत्याज्यानि वासांसि केशश्मश्रुनकानि च विप्रशुध्यत्यपस्पृष्ट्वा क्षत्रियो वहनं तथा वश्य प्रदोदं रश्मिन्वा शूद्रो यष्टिं कृतक्रियः मृदादल्पवयोभिश्च स पिण्डैर्परिवापनं कार्यं तु प्रथमा मलिना ह्येदैरादशाकं मृदेर्भवेद दिनानि दश यन् पिण्डान् कुर्वन्त्यत्र सुधादयः प्रत्यहं देवि भज्यन्ते चतुर्भागै खगोत्तमभागद्वयेन देहस्य तृतीयेन यमानुगाः तृप्यन्ति हि चतुर्धेन स्वयमभ्युपजीवति अहो अहोरात्रैस्तु नवभिर्देहो निष्पत्तिमाप्नुयात् शिरस्त्वाद्येन पिण्डेन प्रेदस्य क्रियते तथा द्वितीयेन तु तु समासदः गलांसभुजवक्षश्च तृतीयेन तथाक्रमाद चतुर्थेन च पिण्डेन नाभिलिङ्गगुदं तथा जानुजङ्खं तथा पादौ पञ्चमेन तु सर्वदा सर्वमर्माणि षष्ठेन सप्तमेन दु नाड्ययः दन्तलो मान्यष्टमेन वीर्यन्तु नवमेन च दशमेन दु, दु, दु पूर्णत्वं तृप्तदाक्षुद्विपर्ययः मध्यमां षोडशीं वच्मि वैनतेयशृणुष्व मे विष्णुवादि विष्णुपर्यन्तान्येकादश तथा गग श्राद्धानि पञ्चदेवानामित्येषाम् मध्य षोडशी निमित्तं दुर्मदिं कृत्वा यदि नारायणो बलिः एकादशाहे कर्तव्ये वृषो सर्गो पितत्रवै वै एकादशाहे प्रेतस्य यस्यो सृज्येतनो वृषः प्रदत्त्वं सुस्थिरं दत्तै दत्तैः श्राद्धशतैरपि अकृत्वा यद्वृषोत्सर्गं कृतं वै पिण्डपादनं निष्पलं सकलं विद्या प्रमीताय तद्भवेद तद्भवेद् वृक्षोत्सर्गादृदे नान्यत् किञ्चिदस्तिमहीतले पुत्रपत्न्यधौहित्रपिता वा दुःखिताथ मृतादनन्तरं तस्य ध्रुवं कार्यो वृषोत्सवः चतुर्वत्सतरीयुक्तो यस्योत्सृज्येद वा वृषः अलङ्कृतो विधानेन प्रदत्त्वं तस्य नो भवेद् एकादशेख्नि सम्प्राप्ते वृषालाभो भवेद्यदि दर्पै पिष्ठायस्तु सम्पाद्य तं वृषं मोचयेद्बुधः वृषोत्सर्जनवेलायां वृषाभावकथञ्चन मृत्तिकाभिस्तु दर्भैर्वा वृषं कृत्वा विमोचयेद् यदिष्टं जीवतस्तस्य दद्यादेकादशेहनि मृदमुद्दिश्य दातव्यं शय्याधेन्वादिकं तथा दा। विप्रान् बहून्भो जयेतप्रेदस्य क्षुद्विशान्तये तृतीयां षोडशीं वच्मि वैनतेयशृणुष्वताम् द्वादशप्रतिमास्यानि आद्यम् षाण्मासिकम् तथा सपण् सपिण्डीकरणं चैवर्दिया षोडशी मता द्वादशाके त्रिपक्षे झषन्मासे मासिकेऽब्दीके तृतीयां षोडशी मेनां वदन्ति मदभे ददः यस्य इदानी न दत्तानि प्रयदश्राद्धानि षोडश पिशाचत्वं स्थितं तस्य दत्तैः श्राद्धसदैरपि एकादशे द्वादशे वादिने आद्यं प्रगीर्दितम् मासादौ प्रतिमासं च शुद्धम् मृतति धौ खग ये के नाक्नात्रिभिर्वापि हीनेषु विनदासुद मासषण्मासवर्षेषु त्रिपक्षेषु भवन्ति हि श्राद्धान्यथ स्यात् पूर्णे वर्षे तदर्थके त्रिपक्षेऽभ्युदये वापि द्वादशाखे धवानृणाम् आनन्द्यात्कुलधर्माणाम् पुंसाञ्चवायुषक्षयाद अस्थिरत्वाच्चरीरस्य द्वादशाखे प्रशस्यदे सपिण्डीकरणेष्वेवं विधिम् बक्षीन्द्रमे शृणो एकोद्दिष्टविधानेन कार्यम् तदपि काश्यव तिलगन्धोदकैर्युक्तम् कुर्यात् पात्र चतुष्टयम् पात्रम् प्रेदस्य तत्रैकम् पित्रयम् पात्रत्रयम् तथा स चयेत् पितृपात्रेषु प्रेतपात्रम् ककर्तृषु चतुरो निर्वपेत्पिण्डान् पूर्वन्तेषु समापयेद तदप्रभृदि वै प्रेदपितृसामान्यमश्नु तदपितृत्वमापन्ये तस्मिन् प्रेदे खगेश्वर श्राद्धधर्मैरशेषैस्तु तत्पूर्वानर्चयेत्पितृन् एकचित्यारोहणे च एकाग्निमरणे तथा सा पिण्ड्यन्तु स्त्रिया नास्ति मृदे भर्तुस्त्रियो भवेद पाकाैक्यमधकालैक्यम् कर्त्राक्यम् च भवेत्खग श्राद्धादौ सखदाहेज पतिपत्न्योर्न संशयः भर्तुर्मृततिथेरण्यतिथौ चितिमधारुहेद तां मृदाहनिदु सम्प्राप्ते पृथक्पिण्डेन योजयेद प्रद्यब्दं च युगपत्तु समापयेद यस्य संवत्सरा दर्वाक् भवेद मासिकञ्चोदकुम्भं च देयं तस्यापि वत्सरं नवश्राद्धं सपिण्डत्वं श्राद्धान्यपि च षोडश एकेनैव तु कार्याणि संविभक्तधनेष्वपि पिता महीभिः सा पिण्ड्यं तथा मादा महैषः उक्तं भर्द्रापि सा पिण्ड्यं श्रिया व्यश्रयभेदः नवश्राद्धस्य ते कालं वक्ष्यामि शृणु काश्य वा प्रकल्पयेद द्वितीयञ्च ततो मार्गे विश्रामो यत्र कारितः ततः सञ्चयनस्थाने तृतीयम् श्राद्धमुच्यते पञ्चमे सप्तमे तद्वदष्टमे नवमे तथा दशमैकादशे चैव नवशाद्धानि वैखशाद्धानि नवचैतानि तृतीया षोडशी स्मृता ये कोद्दिष्टविधानेन कार्याणि मनुजैस्तथा प्रथमेऽह्नितृतीये वा पञ्चमे सप्तमे तथा नवमैकादशे चैव नवश्राद्धं मृगुर्विदम् उच्यन्ते षडिमानीह नवस्युरपि या गतः उक्तानि ते मया रूढिपक्षो ममाभीष्टो योगकैश्चिदिहेष्यदे आद्ये द्वितीये दाधव्यस्तथैवैकं पवित्रकं प्रेदाय पिण्डो दाधव्यो भुक्तवत्सु द्विजातिषु प्रश्रस्तत्राभिरण्ये दी यजमानद्विजन्मना अक्षय्य महु कस्ये दिवक्तव्यम् विरतौ तथा एकोद्दिष्टं निबोध निबोधचेद्धमा वत्सरं स्मृतं सपिण्डी करणादूर्ध्वं यानि श्राद्धा निषोडश एकोद्दिष्टविधानेन चरेद्वा पार्वणाधृते प्रद्यब्दं यो यथा कुर्यात् तथा कुर्यात्स तान्यपि एकादशे द्वादशेऽग्निप्रेतो भोङ्गे दिनद्वयं योषितपुरुषस्यापि पिण्डं प्रेतेति निर्वपेद सा पिण्डे तु कृते तस्य प्रेतशब्दो दीपदानं प्रकर्तव्यमावर्षन्तु गृहाद् अन्नं दीपो जलं वस्त्रमन्यद्वादीयते यदे यद् तृप्तिदम् प्रेतशब्देन सपण्डीकरणावधि अब्धकृत्यम् मयोक्कन्दे समासाद्विनदा सुता वैवस्वतगृहे यानं यथा तत्तु निबोधमे त्रयोदशेष्णि श्रवणा कर्मणोऽनन्तरन्तु सः त्वगृहीता हि वत्तार्क्ष्य गृहीतो यमकिङ्करैः तस्मिन् मार्गे व्रजत्ये गो गृहीत इव मर्कडः अन्यत्तु पितृसम्भवं तत्प्रमाणवयोवस्थासंस्थानं प्राग्भवो यथा षडशीतिसहस्राणि योजनानां प्रमाणतः अध्वान्तरालिको ज्ञेयो लोकयोहो साधिकार्धक्रोशयुतं योजनानां शदद्वयम् चत्वारिंशत् तथा सप्त प्रत्यसंव्याधि तत्र सः अष्टाचत्वारिंशदा च त्रैशता दिवसैः वैवस्वदपुरं व्याधिकृष्यमाणो यमानुगैः एवम् क्रमेण यादव्ये मार्गे पापरतैस्तु यद। जायते सप्रपञ्चं तच्छृणुत्वमरुणानुज त्रयोदशदिने दत्तपशैर्बद्ध्वादिदारुणैः यमस्याङ्कुशहस्तो वै भ्रुकूडीकुडिलाननः दण्डप्रहार संभ्रांतकृष्यदे दक्षिणां दिशं कुशकण्टकवल्मीक शङ्कुपाषाणकर्कश्ये तथा प्रदीप्तज्वलने क्वचिच्छ्वभ्रशदोत्कटे प्रदीप्तादित्यतप्ते च दह्यमानः सदंशके कृष्यदेयमदूतैश्च शिवा वन्नादभीषणैः प्रयादिभिः मार्गे पापकर्मायमालये कलेवरे दश्यमाने महान्तं क्षयमृच्छति भक्ष्यमाणे तथैवाङ्गे भिद्यमाने च दारुणम् छिद्यमाने चिरन्तरम् चिद्यमाने चिरतरं जन्तुर्दुःखमवाप्नुते स्वेन कर्मविपाकेन देहान्तरगदोऽपि सन् तानि च मे शृणु सौरिपुरम् नगे द्वभवनम् गन्धर्वशैलागमौ क्रौञ्चम् क्रूरपुरम् विचित्रभवनम् बह्वापदम् दुःखदम् नानाक्रन्दपुरम् सुप्तभवन सुतप्तभवनम् रौद्रम् पयो वर्षणम् शीताढ्यम् बहुभिदिशोडशपुराण्येदान्यष्ट ष्टनिते तत्र याम्यपुरं गच्छन् पुत्रपुत्रेऽदि च ब्रुवन् हाहेदि क्रन्तदे नित्यं स्वकृतं दुष्कृतं स्मरन् अष्टादशो दिने तार्ह्य तत्पुरप्राप्नुयादस्सौ पुष्पभद्रानदीयत्र न्यग्रोधप्रियदर्शनः विश्रामेच्छां करोत्यत्र कारयन्ति न दे भडाः क्षिदौ दत्तं सुधैस्तस्य स्नेहाद्वा कृपया तथा मासिकं पिण्डमश्नादि तद सौरिपुरं व्रजेद जलाशयो नैव कृतो मया तदा मनुष्यतृप्त्यै पशु पक्षितृप्तय गोतृप्तिहे दुर्न च गोचरकृदशरीरहे निस्तरयत्वया कृदम् तत्र नाम्ना दुराजा सौ जङ्गमकामरूपधृकभयात्तद्दर्शनजादाद्भुङ्कृते पिण्डं सशङ्गितः त्रिपक्षे जलसंयुक्तं क्षिधौ दत्तं तदो व्रजेद व्रजन्नेवं व्रलपदे खड्गाखादप्रपीडितः न नित्यदानं न गवाह्निकं कृतं पुस्तं च दत्तं न हि वेदशास्त्रयोः पुराणदृष्टो न हि सेविदोऽद्ध्वा शरीरहे निस्तरयत्वया कृतम् नगेन्द्रनगरं गत्वा भुक्त्वा चान्नं तथाविधम् मासी द्वितीये यद्दत्तं बान्धवैस्तु तदो व्रजेद व्रजन्ेवं प्रलभदे कृपाणत्सुरताडितः पराधानमभूत् सर्वं मम मूर्खशिरोमणेः महदा पुण्ययोगेन मानुष्यं लब्धवानहम् तृतीये मासि सम्प्राप्ते गन्धर्वनगरे शुभं तृतीयमासिकं पिण्डं तत्र भुक्त्वा व्रजत्यसौ व्रजन्नेवं विलपदे तदग्रेणाहधः पद्धि मया न दत्तं न हुदं हुदाशने तपो न तप्तं हिमशैलगह्वरे न सविधं गङ्गमहो महाजलं शरीरहे निस्तरय त्वया कृतं तुर्ये शैलागमम् मासि प्राप्नुयात् तत्र वर्षणं तस्योपरि भवेत् पक्षिन्पाषाणानां निरन्तरं चतुर्थमासिकं श्राद्धं भुक्त्वा तत्र प्रसर्पदि सपतन्नेव विलपन् पाषाणाद्यधिपीडितः न ज्ञानमार्गो न योगमार्गो न कर्म मार्गो न च भक्तिमार्गभः न साधुसङ्गात् किमपि श्रुतं मया शरीर हे निस्तरयत्वया कृतं ततः क्रूरपुरमासि पञ्चमेयादिकाश्यभ भुवि दत्तं पिण्डजलं भूत्वा क्रूरपुरं व्रजेद व्रजन्ने बम्बिलपदे पट्टिशैपाधिधपथि हा मादर्हापि दर्भादसुदाः युष्माभिर्नोप स्त्रियः युष्माभिर्नोपदिष्टोऽहमवस्थां प्राप्त ईदृशं एवं लालप्यमानं त्ये यमदूदा वसन्तिः क्व क्व सुदः सुहृद स्वकर्मोपार्जिदे भुङ्क्ष्व मूर्ख याताश्चिरम्बी जानासि शम्बलमलम्बलमध्वगानां नो शम्बलप्रयतदे परलोकगत्यै गन्तव्यमस्ति तव निश्चितमेव तेन मार्गेण येन न भवेत् क्रयविक्रयोऽपि ऊनषण्मासिके क्रौञ्चे भुक्त्वा पिण्डन्तु सोदकं कडीमात्रन्तु विश्रम्य विचित्रनगरं प्रजेद व्रजन्नेवं विलपदेशूलाग्रेण विदारितः कुत्र यामि नखि गामि जीविदं मरणं पुनर्न वै युद्धमेव विलपन् प्रयात्य सौ यादनार्हधृतविग्रहपदि विचित्रनगरे तत्र विचित्रो नाम पारिधिवः तत्र षण्मासपिण्डेन तृप्तः सन्व्रजते पुरः व्रजन्ने बम्बिलपदे प्रासग्रेण प्रपीडिताः मादा भ्रातापिता पुत्रकोऽपि मे वर्धते यो मामुद्धरदे पापम् वदन्तम् दुःखसागरे व्रचतस्तत्र मार्गे तु तत्र वै तरणी शुभा सत्र योजनविस्तीर्णा पूयशोनिदः सङ्कुला आयाति तत्र दृश्यन्तेनाविकाधि वरादयः प्रदत्ता गौर्यदि वै तरणी नावमेनाम् समारोह सुखेनोत्तरवै नदीम् तत्र येन प्रदत्ता गौ स सुखेनैव तां तरेद अदाये तत्र कृष्येद करग्रासन्तु नाविकैः उखैकाकैर्बक्वो लूकैस्तीक्ष्णतुण्डैर्विदध्युदे मनुजानां हितं दानमन्दे वै तरणी खगा दत्तापापं दहे सर्वं मम लोकान् दुःसानयेत् मे मासि सम्प्राते पुरं बह्वापदं मृतः व्रजेतु शोदकं भुक्त्वा पिण्डं वै सप्तमासिकं व्रजन्नेवं विलपदे परिकाहदिपीडितः न दत्तं न हृदं तप्तं न स्नातं न कृतं हितं यादृश्यं चरितं कर्म मूढात्मन् भुङ्क्ष्व तादृशं मास्यष्टमे दुःखदे दुपरे मुक्त्वा दशोदकं पिण्डं प्रया स यौतार्क्ष्य नानाक्रन्दपुरं तदः प्रयाणे च क्व जाया चडुलैश्चाडु पडुभिर्वचनैर्मम भोजनं भल्लफल्लीभिर्मुत्सलैश्च क्वमारणम् नवमे मासि दत्तं वै नानाक्रन्दपुरे तदः पिण्डमश्रादिकरुणम् नानाक्रन्दान् करोत्यभिर् दशमे वै सुतप्तभवनं तदः सरन्नेवं विलपदे हलाहदिहदः पथि क्व सूनुपेशलकारैपादसंवाहनं मम क्व दूतवज्रप्रतिमकैर्मत्पदकर्षणं दशमे मासि पिण्डादि तत्र भुक्त्वा प्रसर्पदि मासे चैकादशे पूर्णे पुरं रौद्रं स गच्छन्नेव विलपदेयदा यथा पृष्टे प्रपीडितः क्वा हंस तूलीशयने परिवर्दन्क्षणे क्षणे भडहस्तभ्र भ्रडहस्तभ्रष्ट यष्टिखृष्टपृष्ठक्व वा पुनः क्षिदौ दत्तञ्च पिण्डादिबुक्त्वा तत्र ततो व्रजे पयो वर्षणमित्येदन्नामकम्पुरमण्डज व्रजन्वं विलपदे कुडारैर्मूर्ध्नि ताडिदः क्व भृत्यकोमलकरैर्गन्धतैलावसनं क्व कीनाशानुघै क्रोधात् कुडारैशिरसिव्यधा ऊनाब्दिकञ्जयश्राद्धं तत्र भुङ्कृते सुदुःखितः सम्पूर्णे तु ततो वर्षे शीताढ्यम् नगरम् व्रजेद गच्छन्नेवम् चुरिकया छिन्नजिह्वस्तुरोदिति प्रियाडाभैक्व च ससमधुरत्वस्य वर्णनम् उक्त मात्रेऽसि पत्रादिजिह्वाचेदक्व चैव हि वार्षिकं पिण्डदानादिभुक्त्वा तत्र प्रसर्वदि बहुभीतिकरं तत्तत्पिण्डजं देवमास्थितः प्रकाशयदि पापानमात्मानं च विनिन्दति योषिदप्येवमेतस्मिन्मार्गे वै परिदेवदी परिदेवती दूरे नगरम् सहि गच्छति चत्वारिंशद्योजनानि चतुर्युक्तानि विस्तृतं त्रयोदशप्रतिहाराश्रवणानां तत्र वै श्रवणाकर्म तस्तुष्यन्त्यन्यथा क्रोधमाप्नुयुः ततस्तत्रा सुरकृक्षं भिन्नाञ्च न चयोपमं मध्ये पश्यदि वै दंष्ट्राकरालवदनम् भृगुडी दारुणाकृतिम् विरूपैर्भोषणैर्वक्त्रायैर्वृदम् व्याधिशधै प्रभुम् दण्डाशक्तमहाबाहुम् पाशहस्तम् सुभैरवम् तन्निष्ठ तन्निर्दिष्टाम् ततो जन् दुर्गतिं व्याधि शुभाशुभम् पापी पापां गतिं यादि यथा ते कथितं पुरा चत्रोपानहदातारो ये जेश्मप्रदायकाः ये दु पुण्यकृतस्तत्र ते यमं तदा सौम्याकृतिं कुण्डलिनं मौलिमन्दं धृतश्रियं एकादशे द्वादशे हि षण्मासे तथा विप्रान् बहून् भोजये तत्र यन् महदीक्षुधा जीवन्पुत्रकलत्रादिप्रदिष्टमिदरैखगन् यौनसाधयदि स्वार्धमेवं पश्चाद्धिखिद्यते यदते सर्वमाख्यादं संयमिन्यां यदा गदि प्रोक्तमावर्षकृतं ते किमन्योतुमिच्छसि इति श्रीगारूडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे मार्ग वर्षकृत्यमलोकमार्गयातनादिनिरूपणं नाम पञ्चमोऽध्यायः ओम्